गिनी प्रार्थनाम् वदति वा अस्तु भगिनी वदामि <coughs> हरिः ॐ श्रीगुरुभ्यो नमः श्रीकृष्णाय नमः वक्रतुण्डमहाकाय कोटिसूर्यसमप्रभा निर्विघ्नम् कुरु मे देव सर्वकार्येषु सर्वदा सरस्वति नमस्तुभ्यम् वरदे कामरूपिणि विद्यारम्भम् करिष्यामि सिद्धिर्भवतु मे सदा शान्ताकारम् भुजगशयनम् पद्मनाभम् सुरेशम् विश्वाधारम् गगनसदृशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगिसद्यानगम्यम् वन्दे विष्णुम् भवयहरम् सर्वलोकैकनाथम् हरिः ओम् धन्यवादः हरि ओम् नमस्कारः अस्तु अस्माकं धन्यवादः अस्माकं विषयः अधुना अस्ति द्वितीया विभक्तिः इति आरम्भे वयं दृष्टवन्तः कर्मपदं कर्मपदस्य द्वितीया विभक्ति तत् कर्मपदमित्युक्ते किं तत् उदाहरणानि वयमपि दृष्टवन्तः तत् कर्तुः क्रियया यम् आप्तुमिच्छति प्राप्तुमिच्छति कत् कर्तुः इष्टतमं कारकम् इति कर्मपदम् इति अस्ति तस्य कारकस्य कर्मसंज्ञा भवति अनन्तरं वयं दृष्टवन्तः कर्मपदस्य द्वितीया भवति तत् सूत्रस्य अपि वयं तत् सूत्रस्य व्याख्यानं तत्र कर्मणि द्वितीया इत्युक्ते कर्मसंज्ञया यस्य निर्देशनं भवति तस्य द्वितीया विभक्तिः भवति इति अस्ति अनन्तरं वयम् अस्माकं पुस्तके आकारान्त अकारान्तपुल्लिङ्गिशब्दाः आकारान्तश्रीलिङ्गिशब्दाः अनन्तरम् इकारान्त ईकारान्तश्रीलिङ्गि उकारान्त एवं सर्वं दृष्टवन्तः तस्य प्रथमाविभक्तन्तपदानि अनन्तरं द्वितीयविभक्तन्तपदानि तत्सर्वं वयं दृष्टवन्तः व्याख्या अनन्तरं तत् हे यत्र तत् अभ्यासरूपेण यत्किमपि दत्तमस्ति अस्माकं पुस्तके तदपि वयं समापितवन्तः अधुना विषये अस्ति सर्वनामशब्दानां द्वितीया विभक्तिप्रयोगः इति सर्वनामशब्दानां सर्वनाम सर्वनाम इत्युक्ते किम् उदाहरणं कोऽपि वदति वा सर्वनाम संस्कृतभाषायां अस्तु तत् एतत् पदं सर्वनामपदम् इति उदाहरणं कोऽपि ददाति वा सम्यक् सम्यक् हा इत्युक्ते वयं यदा वदामः तद् इति तद् इति मूलप्रातिपदिकम् अस्ति चेत् तस्य पुल्लिङ्गी भवति सः सः तौ ते इति प्रथमा भवति तथैव तद् एवं प्रातिपदिकस्य स्त्रीलिङ्गिरूपं भवति सा ते ताः प्रथमाविभक्ति तथैव तद् इति प्रातिपदिकस्य किं भवति तत् ते तानि नपुसकलिङ्गि भवति अस्तु एतत् सर्वं वयं जानीमः कथं तत् तत् इति मूलरूपेण प्रातिपदिकं तस्य स्त्रीलिङ्गी पुल्लिङ्गी नपुसकलिङ्गिरूपाणि भवितुम् अर्हति यथा प्रथमाविभक्तेः विषयम् उक्तवती तथैव द्वितीयाविभक्त्यन्तपदानि तृतीयाविभक्त्यन्तपदानि एवं सर्वं भवति हा अधुना तदिति प्रातिपदिकं सः तौ ते वा सा ते ताः तत्ते तानि क्रमेण पुल्लिङ्गि स्त्रीलिङ्गि नपुसकलिङ्गि द्वितीयान्तपदानि वयं पश्यामः अग्रिमे हा परन्तु अधुना विषयस्य विषये अधुना तद् तस्य स्थाने एतद् यदा प्रातिपदिकं भवति तदा किं परिवर्तनं भवति पुल्लिङ्गिश्रीलिङ्गी पुषकलिङ्गीरूपेषु कोऽपि स्मरति वा एतद् इति प्रातिपदिकं यदा अस्ति चेत् कथं भवति पुल्लिङ्गीरूपम् एष सम्यक् बहु सम्यक् स्त्रीलिङ्गी श्रीलिङ्गी अस्ति चेत् किं भवति न न पुनः एकवारं एषा एते स्त्रीलिङ्गम् सम्यक् नपुंसकलिङ्गे अस्ति चेत् एतत् एते एतानि वयं जानीमः अधुना मम एकः प्रश्नः इति तद्विषये एतद्विषये वयं दृष्टवन्तः परन्तु यदा अहम् अस्मत् इति प्रातिपदिकं वदामि चेत् तत्र भिन्नता दृश्यते वा पुल्लिङ्गे श्रीलिङ्गेन पुस्तकलिङ्गे न अस्मत् इति त्रीषु लिङ्गेषु अस्मत् इत्युक्ते इस् टाकिङ्ग् अबौट् हिम् सेल्फ् मै सेल्फ् इति तदा तत्र त्रीषु लिङ्गेषु भिन्नता न वर्तते तथैव अहं युस्मत् इति प्रातिपदिकं वदामि तत्र भिन्नता दृश्यते वा नलिङ्गकः तद् त्रिलिङ्गक आं तत्र अपि न भिन्नता त्रिषु लिङ्गेषु शु, समानानि रूपाणि अधुना भवत इति प्रातिपदिकं भवत् hmm. पुल्लिङ्गिरूपाणि कानि प्रथमाविभक्ति भव भवान् भवन्तौ भवन्तौ भवन् भवन्तः आं भवान् भवन्तौ भवन्तः पुल्लिङ्गी श्रीलिङ्गिरूपाणि कानि भवती भवती बावत्या। भवत्यौ भवत्यः भवती भवत्यौ भवत्यः सत्यं अधुना तत्र किम् इति प्रातिपदिकं स्वीकरोतु किं तस्य पुल्लिङ्गिरूपाणि कानि किं प्रातिपदिकं के कानि पुल्लिङ्गे अस्ति वा किं केकानि स्त्रीलिङ्गी का के काः का... का का, का. का का नपुषकलिङ्गिरूपाणि अधुना एतत् सर्वं प्रथमाविभक्त्यन्तरूपाणि एतानि सर्वाणि प्रथमाविभक्त्यन्तरूपाणि अधुना अद्य दिने एतेषां सर्वेषां द्वितीयान्तरूपाणि द्वितीयाविभक्त्यन्तरूपाणि वयं पश्यामः प्रथमतः तु द्वितीयान्तरूपाणि अनन्तरं तस्य उपयोगः कथं वा भवति तदेवं सर्वम् वय पशा हा अग्छ सर्े अम स्क्रीन शेर कौमस्वनामश द्वितीया विभक्ति प्रयोग सर्वनाम शभक्ति प्रयोग कथम अ दृश्यते दृश्यते अधुना अधीन। भारतमहोदये भवान् आरम्भं करोति वा आं भगिनी तद् पुलिङ्ग एकवचनं द्विवचनं बहुवचनं प्रथमा विभक्ति सः द्वि एकवचनं द्विवचन्तौ बहुवचन्ते द्वितीयाविभक्ति तम एकवचन्तं द्विवचन्तौ बहुवचनं तान् mm -hmm. तद् स्त्रीलिङ्गी प्रथमाविभक्ति सा एकवचन् mm -hmm. ते द्विवचन् mm -hmm. ताः बहुवचनं mm -hmm. द्वितीया विभक्ति ता ताम् एकवचनं ते mm द्विवचनं -hmm. ताः बहुवचनं तद् नपुसङ्कलिङ्गलिङ्ग प्रथमाविभक्ति तत् एकवचनं ते द्विवचनं तानि बहुवचनं द्वितीया विभक्ति तत् एकवचनं ते द्विवचनं तानि बहुवचनं योग्यं धन्यवादः अधुना अत्र किं स्मर्तव्यं प्रकर्षेण पश्यन्तु तद् श्रीलिङ्गरूपस्य कृते सा ते ताः इति प्रथमा तथैव द्वितीया भवति तां ते ताः बहुवारं तत् ताः एव प्रथमा द्वितीया बहुवचनान्तपदं भवति तस्य विषये मनसि सन्देहः भवितुम् अर्हति परन्तु तत् ताः एव ताः एव प्रथमा तथैव द्वितीयाः कृते अधुना तत्र न पुस्तकलिङ्गितु तत्ते तानि तत्ते तानि वयं सर्वे जानीमः अधुना अग्रिमे तत्र पश्यन्तु यदा अहं चिन्तयामि अत्र क्रियापदानि क्रियापदानि पूरयतु इति प्रश्नः अस्ति तदा किं भवति सः सः गच्छति तौ गच्छत ते गच्छन्ति एवं खलु तथैव सा कृते अपि ते कृते अपि ताहा कृते अपि वयं सुलभानि वाक्यानि वर् वक्तुं शक्नुमः तत्ते एतानि विषये अपि क्रियापदानां तत्र योजनाम् कृत्वा वयम् वाक्यानि वक्तुं शक्नुमः अधुना मम एकः प्रश्नः अस्ति पकोर तम तौवा तर पुिंगी भव श्रीलिंगी भवि नपुसकलिंगी भवि पर्वतीयद स्वीकृत लघूनी वाक्या वक्तव्या अदुना सी लघूनीक्या रगिनी होती आरंभ कौतीयाद स्वीको वाक्यम व अस्तु भगिनि अत्र किं करणीयमस्ति भगिनि तं तौ तान् तां ते ता तत् ते तानि हा एतेषु पदं स्वीकृत्य द्वितीया किं स्मर्तव्यमत्र भगिनी द्वितीया अस्ति तत्र कर्मपदं कर्मपदेन तस्य योजना करणीया इति अस्तु हा अधुना वदतु सः पठतु नीकृत्य अस्तु भगिनि त्वं त्वं लिखतु न न भगिनी त्वम् इति प्रथमा द्वितिया अत्र त्वं कुत्रापि नास्ति खलु तत्र मया किमुक्तौ तौ तौ तान् तान् तान ते ताः तत् ते तानि एतेषु पदेषु बालकौ पठतु न तथा गच्छन्तु अहमेकवारं वदामि एकवारं म्यूट् करोतु अहं वदामि तत् एकवारं श्रुणोतु सर्वे अत्र मम उद्देशः मम उद्देशः अस्ति द्वितीया इति कर्मपदेन कथं वा तस्य वाक्य उपयोगं भवति इति भवन्तः सर्वे चिन्तनं कुर्वन्तु इति मम उद्देशः अधुना द्वितीया तम् द्वितीया यदा अस्ति चेत् किं भवति अहं तं पश्यामि अहं तं वदामि अत्र कर्ता इति प्रथमा भवति अहं वा तत्र सह सः तं पश्यति सा तं पश्यति वा ते तं पश्यन्ति बहवः तत्र प्रकाराः सम्भवन्ति परन्तु मम उद्देशह किमस्ति अत्र तम् इति कर्मपदेन पश्यन्तु तान् बालकान आह्वयतु एवं सर्वं कर्मपदेन अस्माकं कर्मपदस्य स्थाने द्वितीयान्तपदानां योजनां कृत्वा वाक्यानि वदन्तु इति प्रश्नः अस्ति अधुना स्पष्टमस्ति वा अहम् न न श्रूयते मया सम्यक् न श्रूयते मया अहं चिन्ता मास्तु अस्तु चिन्ता मास्तु हा पुनः एकवारं सर्वेषां कृते वदामि प्रथमा विभक्ति यदा अस्ति तदा तत् कर्तुपदम् सूचयति यथा तत्र सः तौ तत ते सा तेताः तत्ते तानि एवं सर्वमस्ति तत् पुष्पं ते पुष्पे तानि पुष्पाणि अधुना ते तानि एव द्वितीयारूपेण यदा आगच्छन्ति तदा किम् भवति अहं तत् पुष्पम् पश्यामि अहं तत् पुष्पम् आनयामि अहं तानि पुष्पाणि आनयामि सः तानि पुष्पाणि आनयति सः तानि पुष्पाणि पश्यति ते तानि पुष्पाणि पश्यन्ति तत्र बहवः प्रकाराः सम्भवति परन्तु सर्वेषां कृते अस्माकं चिन्तनं किं भवेत् द्वितीया कर्मरूपेण अधुना कर्मरूपेण यदा अहं वदामि तत् पुस्तकमिति तत् भवन्तः सर्वे वाक्यानि वक्तुं शक्नुवन्ति इति मन्ये पुस्तकम् अहं पुस्तकं पठामि इति परन्तु तत् पुस्तकम् इति स्थाने यदा अहं तत इति तदा अहम तत् पठा अहम तत्कम पढ़ा अहम तलि पशा भव विचार अधुना अयत्न कौती बा, अन् भगिनी जयंतीभगिनी बा, मम ध्वनिः श्रूयते वा आं भगिनि आं भगिनि अहं प्रयत्नं करोमि भगिनी सा पाठं पाठयति तृतीया सा पाठमिति न पाठं स्थाने किं योचनीयं पाठं सा पाठयति सा तत् पाठं पठति वा साम्यक् सम्यक् योग्यं अधुना एकमेकं एकम स्वीकरोतु एतत् एतत आ, अहं पठामि हा अहम् एतत् अनन्तरम् अहं त... तत् पठामि अहं तत् पठामि सम्यक् सम्यक् योग्य अहं ताम् आवयामि अहं तां पृच्छामि अहं तां शिक्षिकां पृच्छामि अहं तं शिक्षकं पृच्छामि इति सर्व हा यदा वयं तस्य किं वदामि बहुवारं वयं वदामः तदा एव सम्भाषणे अस्माकं प्रगतिः भवति इति खलु भिन्नाः शब्दाः तत्र सन्ति परन्तु तेषां योजना कथं करणीयम् इति विषयः अस्तु अस्तु भगिनि धन्यवाद, धन्यवादः अग्रिमेतत् जयन्ती भगिनी भवति रचयति वा वाक्यानि नास्ति वा जयन्ती भगिनी अस्तु वीणा भगिनी भवती भवती वदति वा हा भगिनि अहं तं पा पाचयामि सयोग्यं योग्यम तत्र भवती किं वक्तुम् इच्छति अत्र अहं ऐ व्थिङ्ग् अस्तु पाचयामि कदा आगच्छति तत् इफ् यु आर् गेटिङ्ग् द वर्क् डन् फ्रोम् सम्बडि तत्र निक्ष्प्रम् इत्युक्ते किमपि तत्र फलमस्ति वा किमपि पदार्थमस्ति तद् दृष्ट्वा भवती पचति तं, तं, तं, तं पक्वान्नं पचामि अहं तत मधुरं पचामि इति अस्तु योग्यम् इतोपि एकं वदतु अहं क्षम्यते पुस्तकम् अहं पुस्तकम् आह्वयामि हा पुस्तकं पुस्तक पुस्तक इति सजीव तत्र आह्वयामि इति अहं पुस्तकं स्वीकरोमि इति अहं पुस्तकं स्वीकरोमि अहं पुस्तकं पठामि इति पठामि अस्तु भगिनि अस्तु योग्यम् इतोपि वदतु अहं तं पिबामि हा अहं तत्र तम् इत्युक्ते तत्र पुल्लिङ्गी भवेत् खलु इति पुल्लिङ्गी पेयम् इति अस्ति वा कोऽपि तत् रसं वा तत्र जलं वा अहं जलं जलं पिबामि पिबामि अस्तु अहं तत् क्षीरं पिबामि अहं तद्दुग्धं पिबामि सत्यम् mm -hmm. अधुना द्विवचने अपी पश्यन्तु ते इति अस्ति हा अहम् अहं ते बालिके पश्यामि अहं तौ बालकौ पश्यामि इति योग्यं खलु अहं तान् लकान आह्वयामि अहं ताहा बालिकाः आह्वयामि एवं सर्वम् अस्तु अस्तु भगिनी अस्तु अधुना जयन्ती भगिनी भवती धन्यवादः भवती वक्तुं एमर्जेन्सि का काल् आगता आगतः अतः अहं गतवती इदानीमेव क्षम्यता अस्तु चिन्ता मास्तु परन्तु अत्र कर्मपदस्य योजनेन इत्युक्ते द्वितीयान्तपदानि तत्र तं तौ तान् वा तां ते तत् एतानि द्वितीयान्तपदानि प्रयुञ्ज वाक्यानि वदन्तु इति मम प्रश्नः भवती वदति वा रामः तं पृच्छति योग्यं प्रश्नं पृच्छति योग्यं राम तौ वनं ग गच्छतः सत्यं सत्यं परन्तु अत्र अत्र तौ वनं गच्छतौ इति प्रथमा अस्ति खलु आं बेनि आम् वने गच्छतः तत् वाक्य किम वक्तुम् इच्छति भवती न वने सारि बेनि अन्यवाक्यं वदामि अङ्गतः सुग्रीवः द्वौ वने चरन् चरतः परन्तु अत्रापि अङ्गदः सुग्रीवः तत् कर्मपदमस्ति वा कर्मपदमेव तथैव मम उद्देशः अस्ति सर्वेषां मनसि कर्ता नहीं। कर्म तस्मिन् विषये भेदः कः रावणं पश्यतः रावणं रावणं पश्यतः रा... रामः रामः तम् रावणं Hmm. Hmm. रामः तं रावणं पश्यति इति द्विवचनान्तरं द्विवचनपदान्तं योजय चिन्तयति ओके अस्तु तद् पश्यतु ते फले इति स्वीकरोतु ते फले ते फले खादतः परन्तु अधुना किं करो किं करोतु सुग्रीवः सुग्रीवः अङ्गदः ते फले दतः इति किं भवति सुग्रीव अङ्गदः अत्र कर्तुपदेन आगच्छति ते फल इति कर्मपदेन आगच्छति वानराः तान् फलान् खादन्तः ता शुद्धं वानराः तान् फलान् खादन्तः ता परन्तु भगिनी फल इति तानि भवति खलु फलं फले फलानि न पुष्पति फलानि तानि फलानि खादन्ति हा अधुना पश्यतु वानराः तान् बालकान् पीडयन्ति वानराः तत्र ते पीडयन्ति खलु बालकानामपि तत् तान् बालकान् पीडयन्ति अस्तु एवं केवलं तत् मनसि सन्देहः न भवेत् हा कदा कर्तुपदं कदा कर्मपदं हा यदि अस्माकं पुस्तके एतत् नास्ति परन्तु मम अस्माकम् स्तरवर्धनार्थम् इत आवश्यकम् इति मम चिन्तय अधुना भारतमहोदय भवानपि वदति वा एकं वाक्यं वदतु तत् मित्रं सह क्रीडामि अहम् अहं तत् मित्रं तत् मित्रं गृहम् आवयामि हा अधुना okay. सह सः विषये किमस्ति महोदय सह यदा आगच्छति चे तत्र तृतीया आगच्छति खलु सः योगे तृतीया इति वदामः वयं खलु अतः okay. तदा अहं सह इति न परन्तु अहं तत् मित्रम् आवयामि इति okay. योग्यम् इतोपि एकं वदतु Mm -hmm. तां पाठशालां गच्छति गच्छामि हा हा एतत् सम्यक् अस्ति बहु सम्यक् तां पाठशालाम् अहं गच्छामि उत्तमम् उत्तमम् अस्तु हा धन्यवादः योग्यमस्ति योग्य अम्बिका पति महोदय भवान् प्रयत्नं करोति वा वदति वा आ, आ, आ, <coughs> आ, आ, आ, नपुंसकलिङ्गं तत् पुस्तकं गृह्णामि बहु सम्यक् सम्यक् उत्तमम् इतोपि एकम् अहं अहं ता, तानि फलानि खादामि सत्यं बहु सम्यक् सम्यक् अत्र इत्युक्ते अत्र तानि फलानि कर्मपदमस्ति तत् पुस्तकं कर्मपदमस्ति तथैव कर्मपदेन यदा पुल्लिङ्गिशब्दानां ग्रहणं भवति तदा तं तौ तान् इति आगच्छति एकवचने द्विवचने बहुवचने त्रिल्लिङ्गिशब्दानां ग्रहणमस्ति चेत् तां ते ताः इति आगच्छति योग्यमस्ति अम्बिकापतिमहोदयः धन्यवादः योग्य योग्य अधुना भवानेव अग्रिमे पठति वा अहं अस्मद् युष्मत् तत् कृपया अम्बिकापटी महोदय पठति वा अस्मत् शब्दः प्रथमाविभक्ति अहम् आवां वयं द्वितीयाविभक्ति माम् आवाम् अस्मान् तो. युष्मत् शब्दः प्रथमाविभक्ति ुष्मान् त्वां युवां युष्मान् अस्तु अस्मत् शब्दस्य कृते माम् आवाम् अस्मान् युष्मत् शब्दस्य कृते त्वां युवां युष्मान् इति द्वितीयान्तपदानि सन्ति अधुना भवान् भवत, भवत् श्रीलिङ्गि तस्य विषये अपि तदपि hmm. महोदय पठतु कृपया भवन् भवत् पुल्लिङ्गशब्दः hmm. प्रथमाविभक्ति भवान् भवन्तौ भवन्तः द्वितीयाविभक्ति भवन्तं भवन्तौ भवन् भवतः लिङ्गस्त्रीलिङ्गे hmm. प्रथमाविभक्ति भवती भवत्यौ भवत्यः Hmm. योग्यम् अधुना किं विषयक किं विषयक रमाभगिनी भवती पठति वा किं विषयक तालिका किं किं पुल्लिङ्ग् पुल्लिङ्गे प्रथमाविभक्तिः द्वितीयाभक्तिः कं कौ कान् त्रीलिङ्गे का के काः प्रथमाविभक्ति द्वितीयाभक्ते कां के काः नपुंसलिङ्गे प्रथमाविभक्तौ किं के कानि द्वितीयाभक्ति किं के कानि एतस्य किं विषयः कः कौ के कौ का का के काः कां के काः किं के कानि किं के कानि एवम् अस्ति अधुना अधुना एकः अत्र विचारः वदामि सर्वेषां शब्दानाम् अपि हा सर्वे म्यूट् कुर्वन्तु सर्वे म्यूट् कुर्वन्तु सर्वेषां कृते वदामि सर्वेषां शब्दानाम् अद्यदिने एव कण्ठस्थीकरणं भवेत् इति न वारं वारं तत्र पठने सः तौते तं तौतान् नो चेत् कथं करणीयं सः तौते कः कौके ह तत्र साधर्म्यं दृश्यते खलु सः सः सः तौते कः कौके अधुना तं कौकान् अत्र अत्र किं भवति तं तौतान् सा तेताः काकेकाः तां तेताः कां केकाः एवं तस्य विविधैः प्रकारैः स्मरणं कृत्वा मनसि तस्य स्थापनं भवेत् इति अद्यदिने एव वा एकवारं सर्वे ममस्मरणिये आगच्छति इति कृपया मा चिन्तयतु अहमपि अहम् आवां वयं वयं, वयं जानीमः त्वं युवां यूयं वयं, वयं जानीमः माम् अस्मान् त्वां युवां युष्मान् तथैव इतोपि अस्ति भवान् भवन्तो भवन्तः भवन्तौ भवन्तौ भवतः भवति भवत्यो भवत्यः यथा नदी नदीनद्यो नद्यः नदीं नद्यो नदीः तथैव भवतीं भवत्यौ भवतीः अधुना अस्माकं पुस्तके एतत् सर्वम् अस्ति परन्तु तत्र किञ्चित् भिन्नप्रकारेण अत्र पश्यतु पुस्तके किम् अस्ति एषः पाठः द्वितीया विभक्ति इति एतावत्पर्यन्तं वयं कृतवन्तः सर्वनाम शब्दानां द्वितीया विभक्ति पर अत्र एवं स्थापनीयमस्ति पश्यन्तु सः सा एवं सर्वं हा तस्यापि पठनं कुर्मः परन्तु तद् झटिति मनसि किञ्चित् सन्देहपूर्वकं भवति अतः अत्र मया लिखितं तत्र सर्वः सर्वा वयम् अग्रिमे वर्गे कुर्मः अधुना सर्वः न परन्तु एतावत्पर्यन्तम् एवं सर्वं पश्यतु सा तथैव एषः हा ताम् एतं भवति इत्युक्ते तत् प्रथमे वाक्ये सर्वाणि प्रथमाविभक्त्यान्तपदानि द्वितीये वाक्ये द्वितीयान्तपदानि एवमस्ति स्वरूपं तस्य हा तत् पठामः एकवारम् अनन्तरम् अग्रेसरेम अस्तु रमाभगिनी समेता मीडाभगिनी भवती पठति वा सर्वनां शब्दानां द्वितीयाविभक्तिप्रयोग तथा आरभ्य उच्चैः पठत जानीत च सः तं सः तं भवति तौ तौ तिष्ठति ते तान् भवति अधुना तत् किमस्ति अधुना सः इति सः ते, इति तत् पुल शब्दस्य पुल्लिङ्गी सः तौ ते एकवचन द्विवचन बहुवचन इति भवति पुल्लिङ्गिशब्द अधुना अग्रिमे अग्रिमे तत्र किमस्ति श्रीलिङ्गिशब्द तत् कथं ता ते ताः रियल् भक्ति भवति ताम् ते ताः सत्यम् अग्रिमे नपुंसकलिङ्गः भवति एषः एतौ एते द्वितीयान् द्वितीयविभक्तिप्रयोगः भवति एतम् एतौ एतान् अग्रिमे एषा, एषः इत्युक्ते पुलिङ्गिवि वा भगिनि एषा इत्युक्ते सा सा स्थाने एषा इत्युक्ते तत् फ्रीलिङ्ग् फ्रीलिङ्ग् एष एते एताः तृतीयान्त द्वितीयविभक्ति भवति एताम् एते एताः अधुना अत्र वयं जानीमः खलु एषः कदा भवति समीपे अस्ति चेत् किञ्चित् दूरे अस्ति चेत् सः भवति एषः एषः अधुना मम समीपे एषः ग्रन्थः मम समीपे अस्ति परन्तु सः वृक्षः ततः पश्यामि सः वृक्षः एषः ग्रन्थः मम समीपे अस्ति तथैव सा महिला अधुना अहं पश्यामि सा महिला तत्र सा महिला तां पश्यामि अधुना सा महिला अस्ति परन्तु मम समीपे एषा एषा द्रोणी समीपे अस्ति इति अस्तु भगिनि अग्रिमे अग्रिमे अहम् आवां वयं द्वितीयाविभक्ति भवति माम् आवाम् अस्मान् अग्रिमे भवान् भवन्तौ भवन्तः द्वितीयाविभक्ति भवति भवन्तं भवन्तौ स्त्रीलिङ्गि भवति भवति भवत्यौ भवत्यः भवतीं mm -hmm. भवत्यौ भवती त्वं mm -hmm. त्वं युवां यूयं mm -hmm. युवां युष्मान् यूक्यम् योग्यं धन्यवादः भगिनी धन्यवादः धन्यवादः अधुना एतत् अपि वयं पठामः सर्वः सर्वात् सर्वं न परन्तु किं पर्यन्तं वयं पठामः भारतमहोदय भवान् पठति वा आं भगिनि तत् ते तानि द्वितीया तत् ते तानि एतत् एते एतानि विभक्ति एतत् एते एतानि <ख>, कः <कोँ> कौ के <थैसंगा> द्वितीया कं कौ कान् <थैसंगा> प्रथमाविभक्ति का के काः द्वितीयाविभक्ति कां के काः <थैसंगा> नपुशङ्करलिङ्ग प्रथमाविभक्तिः किं के कानि द्वितीयाविभक्ति किं के कानि पर्याप्तं योग्यं धन्यवादः अग्रिमे भाषा एतानि वाक्यानि उच्चै पठत हा जयन्तिभगिनी पठति वा अग्रिमे अस्ति वा जयन्तीभगिनी अत्र म्यता ह भवति हा अस्तु अधुना पठतु कुतः एक एतानि वाक्यानि उच्चैः पठतु ततः ता, आरभ्य पठ ओके okay. एतानि वाक्यानि उच्चैः पठत पितामहः तम् <laughs> आह्वयति धर्मराजः तं, तं वदति हिडुम्बा कं मारयति तदनन्तरं हा अत्र अत्र, अत्र अत्र सः मां वदति एषा एतौ जानाति कृपया एकनिमिषम् एकनिमिषम् एकनि अधुना एक एक ना, अत्र पितामहः तम् आह्वयति तत् तम् इति सर्वनाम अस्ति हा तत् तः इतोपि एकः तद् वा एवं सर्वं वा पुत्रः वा तस्य योजनां कृत्वा वाक्यानि वदतु वन प्रथम वन् टु फैव् पर्यन्तं न तत्र योजना भवेत् पितामहः पितामहः पितामहः किं वदति बालकम् आह्वयति बालकम् वा अत्र पश्यन्तु अस्माकं चिन्तनं पितामहः तं पौत्रम् आव पौत्रम् आह्वयति अस्तु पितामहः तं सेवकम् आह्वयति इति अवगतम् पितामहः पितामहः तं पुत्रम् आह्वयति धर्मराजः तं भ्रातरम् आह् वदति भ्रातरं वदति हिडिम्बा हिडुम्ब गदोद्गजं न हिडुम्बा कं मारयति हिडुम्ब कं शत्रुं मारयति सत्यं कं राक्षसं मारयति योग्यं शत्रुं मारयति अपि योग्यं सम्यक् अग्रिमे सा सः मां किं वदति सः मां वाक्यं वदति एषा अत्र पश्यतु भगिनी कथं भवति सः मां जयन्तीं वदति इति उपरि वदिष्यति मां जयन्तीम् सः मां जयन्तीं वदति वा माम मां महिलां वदति इति अस्तु अस्तु भेण एषा एषा एतौ जानाति एषा एतौ बालकौ जानाति अधुना अग्रिमे अपि करोतु कृपया कृपया कृपया आवां कथयतु कृपया वां महिले कथयतु आं योग्योग्य महिले हा अत्र किमस्ति महिले इति शब्द द्विवचनान्तं द्वितीयान्तं द्वितीयान्तं द्वीतियां, द्विवचनान्तं योग्य कृष्णः अहमेव वदा वदनीयं वा आमां वदामि दशपर्यन्तं भवती करोतु अनन्तरम् अन्य कुरु अस्तु कृष्णः युष्मान् रक्षतु कृष्णः युष्मान् पाण्डवान् रक्षतु कृदन्त कृते कुण, वल्क्षर् खलु वल्च्यर् रुद्रः तान् शवान् खादति रुद्रः तान् मृत्य मृत्यशवान् खादति अत्र मृ मृतशरीरान् शरीरान् योग्यम् धर्मः अस्मान् रक्षति धर्मः अस्मान् सर्वान् रक्षति आं सर्वान् यतोपि सर्वं वयं न कृतवन्तः परन्तु तद् योग्यमस्ति धर्मः अस्मान् अस्मान् सर्वान् पुण्य पुण्यशीलोकान् रक्षा अहं तानि जन्मानि जानामि अहं अहं तानि अहं तानि सर्वाणि जन्मानि जाना जानामि अत्र अहं तानि मित्राणि जानामि मित्रमपि न पुस्तकनि खलु अहं तानि पुस्तकानि जानामि इति अस्तु एतदेव मम चिन्तनमस्ति सुलभतया वयं ज्ञातुं वक्तुं शक्नुमः कथमस्ति चेत् योग्यं धन्यवादः भगिनि उत्तमं धन्यवादः भगिनि धन्यवादः धन्यवादः अधुना अग्रिमे तत् हा मितापति भोने भवान् आवां युवां सम्यक् जानीव तथा आरभ्य पठति वा अत्र अस्ति दृश्यते इलेवेन् नम्बर् आवाम् आवां युवां सम्यक् जानीवः अत्र काचित् पश्यन्तु अहम् आवां वयम् इत्युक्ते अत्र अस्मत् शब्दस्य प्रथमा द्विवचनम् आवां हा परन्तु युवां किमस्ति अत्र युवाम् इत्युक्ते युष्मत् शब्दस्य युष्मत् शब्दस्य द्विवचनं द्विवचनं परन्तु तत् द्वितीया इति रूपमस्ति यतोहि तत् त्वं युवां युयं तत् तथैव त्वां युवां युवां तत्र परिवर्तनं न दृश्यते रूपे परन्तु अत्र युवाम् इति कर्मपदमस्ति आवां युवां सम्यक् जानीवः इति सो वी बोथ बोथ् यू यूटू सम्यक् जानीवः इति अस्ति इत्युक्ते युवां जानीवः अत्र अत्र अर्थदृष्ट्या किमस्ति आवाम् आवां युवाम् इत्युक्ते तत् भवति इति तत्र द्विवचनान्तम् अस्मत् युष्मत् शब्द तावदेव युष्मत् अस्मदिति प्रथमान्तम् अस्ति आवामिति रूपं युवाम् इति युष्मत् शब्दस्य द्वितीया विवृत्ति द्विवचनान्तं कर्मरूपे हा अग्रिमे पठतु मानवः मानवः तां सिद्धिं विन्दति अत्र तां सिद्धिम् इति किं रूपमस्ति महोदय तां सिद्धिम् द्वितीयाविभक्ति द्वितीया विभक्ति द्वितीया विभक्तिः अस्ति तत् अस्ति श्रीलिङ्गे ताम् इति सा ते ताः तां ते ताः अत्र द्वितीयाविभक्तिः द्विवचनं स्त्रिलिङ्गम्यतां द्वितीयाविभक्ति एकवचनं तां सिद्धिं विन्दति योग्यम् अग्रिमे एतान एतान सेना एतान् अनुसरति सेना एतान् अनुवसति बहुवचने इत्युक्ते तत्र एतान् किं भवितुम् अर्हति एतान् अत्र अस्ति पुल्लिङ्गिशब्दस्य द्वितीया विभक्ति बहुवचनं सेना एतान् सैनिकान् अनुसरति इत्युक्ते केचन सैनिकाः अग्रे गच्छन्ति अनन्तरं तत्र सेना तान् अनुसरति इति अस्ति एतान् इति कर्मपदम् अग्रिमे सर्वे सर्वे एतां पश्यन्तु एताम् बहुवचनं बहुवचनं बहुवचनं नास्ति अत्र किमस्ति एषा श्रीलिङ्गिशब्दम् इत्युक्ते एषा एते एताः तत्र एषा एते एताः तस्य भवति एताम् एते एताः एताम् इत्युक्ते श्रीलिङ्गे एक एकवचने परन्तु हा सर्वे एतां पश्यन्तु इति अग्रिमे अय आय, अयतिः कां गतिं गच्छति अयतिः इत्युक्ते यति नहीं। नहीं। यः तत्र पश्यन्तु तत्र अस्ति यततामपि सिद्धानां कश्चिन् मा वेत्ति तत् तथा यतताम् इत्युक्ते यत् जनाः प्रयत्नं करोति तत्र, करो तत्र योगाभ्यासेन वा शास्त्र शास्त्राभ्यासेन तत्र तेषां साधनां भवति ये न न कुर्वन्ति ते अयतिः तेषां का गती कां गतिं गच्छति काम् इति द्वितीया काम् इति द्वितीया श्रीलिङ्गी गति गतिलिंगी काम गति गा अर्जुन से प्रश्न अस्त अयति का पापा आचरती वा ये जना शास्त्रता कर्मा न कषा काी अर्जुन से प्रश्न अग्रिमे कः कः मम विभूतिं जानाति मम अस्मत् शब्दः अस्मत् शब्दः सत्यं योग्यं मम इति अस्मत् शब्द परन्तु तत्र मम इति षष्ठी अस्ति कः मम विभूतिं विभूतिम् इति द्वितीया तत्र विभूतियोगः इति अस्ति खलु दशमः अथ दशमोऽध्यायः तत्र विभूतियोगः अस्ति तत् सः विभूतेः भगवान् विभूतेः विषयकज्ञानं ददाति मम विभूतिं कः जानाति इति तत् विभूतियोगः तत्र एवं सर्वमस्ति खलु महर्षिणाम् भृगुः अस्मि अनन्तरम् आदित्यानां रविः एवं सर्वं विभूतियोगः तत्र भगवान् पृच्छति कः मम विभूतिम् जानाति इति अस्तु योग्यमस्ति तत अधुना धन्यवादः कथां प्रति गच्छामः अधुना योग्य पुनः पुनः तस्य परि पुनरावर्ती वयं कुर्मः तत चिन्ता मास्तु अद्य दिने एकस्मिन् दिने एव सर्वेषां शब्दानां ग्रहणं वा कण्ठस्थीकरणं न भवितुमर्हति परन्तु वाक्यप्रयोगेण दृढता भवति मनसि कथं भवति इति अस्तु हा रमा भगिनी कथायाः आरम्भं करोति वा पठतु प्रथमं प्रयत्न परित्यक्त्य परित्यक्तव्यः प्रयत्नः न परित्यक्तव्य प्रयत्नः न परित्यक्तव्यः इत्युक्ते किम् प्रयत्नं यत्नं करोमि तेषां त्यागं न करणीयं प्रयत्नाः न त्यक्तव्याः प्रयत्नः न त्यक्तव्यः तत्र परि इति उपसर्ग इति उपसर्ग परित्यक्तव्यः पठतु कश्चन नाविकः तेन सह आसीत् तदीयः पुत्रः उभौ अपि सुमित्रे समुद्रे उभौ अपि समुद्रे, समुद्रे, समुद्रे, नौ. समुद्रे नौकायाम् उपविश्य नौकाम् अग्रे नेतुं प्रयासं कुरुतः उभाभ्याम् अपि बलेन नौदण्डः नौदण्डः चलय चालयति तथापि चाल्यते तथापि नौका अग्रे न चरति hmm. बलवन्तः त्रडङ्गः द्र... वा द्रडंगा। तरङ्गाः वेगेन आग आगत्य नौकां प्रहरन्ति तथा नौका पृष्ठतः एव चरति स्म कश्चन नावि कश्चन नाविकः बोट् अस्ति बोट् येन सह आसीत् तदीयपुत्रः तदीयपुत्रः एकिन् मयिनी तदीय इत्युक्ते तत्र त्वत् शब्दस्य तदीय इत्युक्ते तस्य पुत्रः यथा तत्र मामका पाण्डवाशय तत्र मामका पाण्डवाश्चैव तत् मामकादेश् तथैव तत्र तदीय इति आदेशः तस्य पुत्रः समीपे अस्ति तेन सह अस्ति तस्य पुत्रः नाविकस्य पुत्रः तेन सह उभौ अपि समुद्रे नौकायाम् उपविश्य नौकायाम् अग्रे नेतुं प्रयासं कुतः ओ, ओ, ओ नाविकः और् उभे उभयतः पुत्रसः नाविका अग्रे गन्तुं प्रयत्नं कृतवन्तः उभाभ्याम् उभाभ्याम् अपि बलेन नौ नौद नौदण्ड दण्डः चाल्यते बौद्ध प्रयत्नं कृत्वा बहु आ, बलं प्रयत्नं कृत्वा दण्डस्थ ओ, ओ, अग्रे गन्तुं यत्नं कृतवन्तः तदा परन्तु अस्तु भगिनि परन्तु नौका हा वदतु अभा उभाभ्याम् अपि तथापि नौका अग्रे न चरति बहु प्रयत्नं कृतवन्तः यत्नं कृतवान् अपि नौकां न चलति अग्रे न चलति इति भवन्तरङ्गा तरङ्गाः तरङ्गाः इत्युक्ते त्वज ध्वज इति किल ध्वजं ध्वजं नरङ्गः वेगे तरङ्गः इत्युक्ते जलमस्ति खलु पश्यन्तु अत्र जले जले तरङ्गाः सन्ति अस्तु तेन किं भवति तरङ्गाः वेगेन आगत्य नौकां हरन्ति ततः नौका पृष्ठतः एव सरति स्म इत्युक्ते तत्र पृष्ठतः एव नौका गच्छति तत्र अग्रिमे न सरति रति नौका विहारः इति तेषाम् उद्देशः परन्तु नौका तत्र बलम् अपि अस्ति तत्र परन्तु अग्रे न गच्छति अग्रे श्रुतं तेषां परन्तु ते प्र सफलः नास्ति तत्र अग्रे न गच्छति पृष्ठतः एव चलति इति स्थितिः अस्तु अस्तु धन्यवादः अग्रिमे भारतमहोदय पठति वा भगिनी <laughs> श्रान्तः पुत्र नौदण्डचाल् चालनं परित्यज्य परित्यज्य पितरम् उक्तवान् तात् अहो कष्टम् अहं तु नितरां श्रान्तः अस्मि महतः श्रमस्य अनन्तरम् अपि नौका तु अग्रे गच्छति एव hmm. तरङ्गा अद्य प्रबलाः सन्ति अतः एवं भवति नौदण्डं चालयन् एव अवदत् पिता अधुना विवरणं करोतु किम् अभवत् अत्र श्रान्तः पुत्रः श्रान्तः इत्युक्ते श्रान्तः वेरिटार्ड् वेरिटार्ड् आव। आव। ओके पुत्रः नौदण्डचालयं परित्यज्य पितरम् उक्तवान् श्रान्तः पुत्रः उक्तवान् तात अहो कष्टम् अहो कष्टम् बहुच परिश्रमम् आम् अहं तु नितरां श्रान्तः अस्मि नितरां नितराम् इत्युक्ते सम्पूर्णतः एण्टैर्ली टैर्ड् नाो नो स्टेमिना लेफ्ट् इति नो एण्टायर्ली टैर्ड् इति नितरां श्रान्तः अस्मि महतः श्रमस्य अनन्तरम् अपि नौका तु अग्रे न गच्छति एव mm -hmm. महातः म श्रतः श्रमस्य, श्रमस्य mm -hmm. आ, आ, आ, नौका न न गच्छ अग्रे गच्छति mm -hmm. तरङ्गाः अद्य सन्ति mm -hmm. तरङ्गाः प्रबलाः सन्ति बहु प्र प्रबलाः प्रबलाः अतः एवं भवति अतः एव भवति uh, hmm. नौदण्डं चालयन् एव uh, अवदत् पिता नौदण्डं चालयन् अतः नौदण्डम् इत्युक्ते देट् पर्टिक्युलर् वील् नौका नौका नौकायाः कृते तस्य चलन् भवेत् अत्मा अतः पश्य पश्यतु अत्र किम् अभवत् श्रान्तः पुत्रः नौदण्डचालनं परित्यज्य इत्युक्ते तेन किं कृतम् पुत्रेण किम् कृतं कार्यं त्यक्तम् तत्र तस्य कार्यस्य त्यजनं तेन कृतम् परन्तु अत्र नौदण्डचालयन् एव अवदत् पिता पिता किम् यत् कार्यम् प्रचलन् अस्ति प्रचलत् अस्ति सः तत् एव करोति नौदण्डचालयन् एव अवदत्पिता पिता केवल् केवलं बाल, के तत्र एवं तरङ्गाः अद्य प्रबलाः सन्ति अतः एवं भवति अधुना पुत्रः किं वदति ओ किमर्थम् एतत् सर्वं कुष्टम् आम्तु बहु बहु किमपि कृतवान् मम परिश्रमं कृतवान् श्रमं कृतवान् परन्तु तत्र परिणामतः किमपि न पश्यामि नौका तु अग्रे गच्छति एव मम श्रमस्य कः लाभः मम परिश्रमस्य कः लाभः मम कष्टस्य कः लाभः किमपि न भवति परन्तु अत्र पुता नौदण्डचालयनेव तस्य प्रयत्नानि यानि यानि प्रयत्नानि तत्र प्रचलितानि सन्ति तथैव सः उक्तवान् तरङ्गाः अद्य प्रबलाः सन्ति अतः एवं भवति इति हा इति स्थितिः अग्रे पश्यामि पश्यामः अग्रिमे किमहोदय धन्यवादः भारत् महोदय धन्यवादः अग्रिमे तत् विना भगिनी पठति वा एवं चेत् तत् हा भगिनि एवं चेत् अद्य अग्रे गमनं न सम्भवेत् इति भाति अद्य गृहं गच्छाम पुत्रः अवदत् तदा पिता दूरस्थ नौकां दर्शयन् अवदत् वत्स mm. तत्र दूरे पश्य mm. काचित् नौका प्रशान्ततया जले लवते तत्र किमभवत् तत्र एवम् एवं, एवं चेत् अद्य गमनं न भवति mm. पुत्रः पुत्रः अवदत् Uh, अद्यतनदिने uh, uh, एवं नौकाः uh, नौकस्य गमनं न सम्भवति अद्य अहं uh, uh, वयं गृहं गच्छामः इति अवदत् hmm. तदा तदा पितः दूरस्थं नौकां द्र दर्शन् uh, uh, तदेव दू, uh, दूरे दूरे uh, uh, uh, अन्य अन्य um, बोट् अन्य अन्यनौकां दर्शयन् अवदत् पुत्र दर्शय दूरे तस, आ, आ, दूरे तद, आ, तद, आ, नौका शांततया चलति इति अवदत् जले प्लवते प्रशान्ततया जले, जले प्लवति तत्र हुँ. हा पश्यन्तु अत्र किम् अभवत् अत्र तरङ्गाः इत्युक्ते अस्माकं समस्याः इति चिन्तयतु पिता किं वदति तरङ्गाः अद्य प्रबलाः सन्ति इत्युक्ते किं तत्र समस्याः सन्ति अतः तत् वयम् अग्रे गन्तुं न शक्नुमः बहुकिमपि वयं कृतवन्तः प्रयत्नाः प्रयत्नाः तु तत्र प्रचलन्ति परन्तु किमपि तस्य लाभः न दृश्यते एतावत्पर्यन्तं नौका अग्रे तु न गच्छन्ति किमर्थं तत् तरङ्गाः समस्याः सन्ति अत्र झटिति पुत्रः किं वदति समस्याः सन्ति चेत् अग्रे गमनं न सम्भवेत् इति भाति इति भाति इति इत्युक्ते इति अनुभवामि हा इति अनुभवामि इति भाति दृश्यते इति कथं तत् इत्युक्ते समस्याः पुरतः सन्ति पुरतः समस्याः इति दृश्यते अतः पुत्रः वदति अग्रे गमनं न सम्भवते न सम्भवेत् इति भाति अद्य गृहम् अस्माकं कार्यं त्यक्त्वा गृहम् गच्छामः किमर्थम् समस्याः तदा पिता दूरस्थाम् नौकाम् तत्र दूरे नौकाः सन्ति दूरस्थां नौकाम. हा दूरस्थां नौकाम् अत्र पश्यन्तु दूरस्थां नौकाम् इत्युक्ते ताम. नौका श्रीलिङ्गी अद्य एव वयं पठितवन्तः खलु तां दूरस्थां नौकां दर्शयन् अवदत् वत्स तत्र दूरे पश्य काचित् नौका प्रशान्ततया जले प्लवते तत्र दूरे एका नौका एका नौका अस्ति तां नौकां दूरस्थां नौकां पिता पुत्रं दर्शयति वदति तत्र पश्य आज्ञार्थं तत्र दूरे पश्य काचित् नौका प्रशान्ततया अधुना प्रशान्ततया इत्युक्ते तत्र तरङ्गाः न दृश्यन्ति तरङ्गाः न सन्ति तत्र हा प्रशान्ततया प्रशान्तमनसायनं तत् स्थितप्रज्ञस्य लक्षणानि यानि सन्ति तत्र ऐ थिङ्क् द्वितीये अध्याये तत् प्रशान्ततया इत्युक्ते तस्य समस्या न सन्ति तत्र शान्ततया प्रशान्ततया जले प्लवते प्लवते इत्युक्ते तु फ्लोट् हा जले प्लवते तत्र पश्यन्तु दूरे अत्र पिता पितुः दृष्टिकीदृशी अदुना अ तरंगा, संती। प्रबला हा तरंगा हा संती। संती। नौका प्रबला तरंगा इति सी तत्र असंभव त्रिश्रमा अंति पर दूरे लुकिंग एट गोल लुकिंग एट तत्र एका नौका, एकां नौकां पश्यतु इति पिता वदति ताम् एकां नौकां पश्य कीदृशी सा नौका प्रशान्ततया प्रशान्ततया शान्तभावनया समस्याः रहिताः समस्या रहिता इति नौका जले प्लवते तत्र स्पष्टमस्ति स्पष्टमस्ति वा एतावत् पर्यन्तम् अस्तु अधुना अग्रे पश्यामि अम्बिकापति महोदय भवान् पठति वा कृपया ताम नौकां तत्र आरभ्य <coughs> एव एवं चेत् अद्य अग्रे हा तत्तु अभवत् खलु अग्रे गमनं न सम्भवेत् इति पुत्रः वदति अधुना तत् पिता वदति तत्र दूरे पश्य काचित नौका प्रशान्ततया जले प्लवते तत्र अधुना तां नौका तत एवम् एवं, एवं चेत् अद्य अग्रे गमनं न सम्भवेत् इति भाति अद्य गृहं गच्छाम पुत्रः वदत् तदा पिता अध्या अध्या दूरस्थां नौकां दर्शयन् अवदत् वत्स पुत्र दूरे पश्य काचित् नौका प्रशान्तया जले प्लवते तत्र ताम नौकां पश्यन् अवदत् पुत्र आम् अल्पं कम्पनम् अपि न दृश्यते अत्र पश्यन्तु तत्र द्वितीया द्वितीया विभक्त्यन्तपदानि सर्वनामपदानि इति अस्माकं विषयः अद्य दिनस्य अतः कथायाः चयनम् अत्र मया कृतं तां नौकां पश्यन् तां स्त्रीलिङ्गी सर्वनाम् कस्य ताम, कथम् अवगच्छ सा तेताः प्रथमा तां तेताः द्वितीया ताम् नौकाम् नौका इति श्रीलिङ्गि ताम् नौकाम् पश्यन् पुत्रः अवदत् आम् अल्पम् कम्पनमपि न दृश्यते तस्याम् अत्र दूरे स्थिते दूरे स्थिते एषा नौका एका नौका तत्र अल्पम् कम्पनमपि न दृश्यते तत्र प्रशान्ततया सा जले प्लवते अल्पं कम्पनमपि तत्र न दृश्यते इति पुत्रः अवदत् अग्रिमे अग्रिमे अग्रिमे अपि पठतु इदानीं ततः इदानीं सा तां दृश् दशम् प्राप्तवती अस्ति इति तु सत्यम् इदानीं सा सा दशम दशां प्राप् ah, hmm. दशामित्युक्ते दशामित्युक्ते स्टेज् ah, अधुना hmm. तस्याः नौकायाः स्थिति का तत्र तरङ्गाः न सन्ति कम्पनं न दृश्यते प्रशान्ततया सा तत्र प्लवनं प्रचलति ah, अधुना सा तां दशाम् अत्रापि तां दशां द्वितीया श्रीलिङ्गे hmm? प्राप्तवती अस्ति इति तु सत्यं परन्तु अग्रिमं वाक्यमपि पठतु कृपया किन्तु इतः पूर्वं तया अपि अस्मिन्नैके कया एव तरङ्गदा गाताः तरङ्गगाताः सौडाः एव सौडः एव हा, हा परन्तु अधुना तत्र तरङ्गाः न सन्ति अधुना तत्र कम्पनं नास्ति परन्तु इतः पूर्वं तया अपि अस्मन नौकया इव तरङ्गाघाताः सोढाः एव सोढा इत्युक्ते टु बेर् तरङ्गाणाम् आघातः तत्र पूर्वम् अधुनासा शान्ततया तस्य प्लवनं तत्र प्रचलति परन्तु तस्मात् प्राक् यथा अस्माकम् अनुभवः तथा नौकायाः विषये एतया विषये इत्युक्ते तथा पूर्वं सा नौका अपि तरङ्गाघाताः सोढा एव यदा आरम्भे तस्य आरम्भे जले स्थिता नौका आरम्भे यथा अस्माकं प्लवनम् अस्माकं नौका नौकायाः नौका अग्रे गमनं न शक्यते तथैव एषा नौका अपि पूर्वस्मिन् स्थले अत्र एव सा तिष्ठति आसम् तत् तिष्ठति आसीत् तदा एव घाता, तरङ्गाणाम् आघातानां सा तया अपि सहनीया इत्युक्ते सोढा बेर् hmm. अधुना तत्र विना कम्पनं प्लवनं तस्य दृश्यते परन्तु पूर्वे तेन अपि तरङ्गाः घाताः एव तेन इत्युक्ते तत्र तेन पुल्लिङ्गि तया इति श्रीलिङ्गि तया अपि अस्माकं नौकया इव तरङ्गा घाताः सोढा एव इति वदति हा अस्तु पर्याप्तं हा एतावत् पर्यन्तं स्पष्टमस्ति पिता किं वदति तस्य अर्थबोधः स्पष्टमस्ति वा सर्वेषां स्पष्टमस्ति अधुना अग्रे हा जयन्ती भगिनी पठति वा पुत्रः पितुः मुखं तत्र आरभ्य पुत्रः पितु मुकं पिता मुख आश्चर्य दृष्टवा पढ़ पितव्य प्रथम पढ़ा विवरण तो्रि मुख आश्चर्य दृष्टवा पिता कथनम अति सम्र गी गभरता यदते त प्रमाणेन तरङ्गा तरङ्गाघातः तरङ्गाघातः अपि न्यूनः भवेत्स्थलप्राप्तिपर्यन्तमपि प्रयत्नः न परित्यक्तव्यः अग्रिमपि भगिनि अग्रिमम् एकं वाक्यं ये शान्तिस्थितिं प्राप्तवन्तः ते सर्वे सहस्रशः प्रयत्नान् कृतवन्तः एव अस्तु mm -hmm. पुत्रः वदति पुत्रः चिन्तयति पितुः मुखम् आश्चर्येण सः पश्यति पिता mm -hmm. कथनम् अनुवर्तवान् पिता एतत् वाक्यम् उक्तवान् अनुवर्त, खलु mm -hmm. अनुवर्तितवान् mm -hmm. इत्युक्ते सः उक्त किमपि उक्तवान् किल कन् hmm. सः अनुवर्तितवान् hmm. वदन् अस्ति सः hmm. वत्सः hmm. hmm. समुद्रस्य गभीरता समुद्रस्य गाम्भीर्यं यत् भवति यावत् वर्धेत तावते प्रमाणेन तरङ्कातः अपि न्यूनः भवेत् hmm. गम्भीरः इत्युक्ते डीप् hmm. कलुबिनी तावदेव गभीरता हा गभीरता इत्युक्ते डीप् आम् तरङ्काः बहिः एव अस्ति गभीरः ऐ ऐ मीन् गभीरता यावत् तर तरङ्काः न भवति इति उक्तवान् खलु भगिनि प्रमाणेन तरङ्गातः अपि योग्यं वदतु प्राप्तिपर्यन्तमपि प्रयत्नः न परितव्यः यावत् गभीर गभीरतः अस्ति तावत् पर्यन्तं वयं प्रयत्नं कुर्मः प्रयत्नं न त्यक्तव्यम् इति पितुः उक्तवान् तदनन्तरं ये शान्तिस्थितं प्राप्तः आ, आ, लौ लौकिके अपि इदानीं ये शान्ति शान्ति शा, स्थितः ते सर्वे अपि सहस्रतः सह प्रयत्नं कृतवन्तः एव mm. इति पिता उक्तवान् अद्य mm. अद्य लौकिके अपि किमपि mm. केपि शान्तिं स्थितः ते सर्वे अपि बहु प्रयत्नं कृत्वा एव अतः mm. अत्रतः आगतवन्तः इति पितुः सम्यक् सम्यक् योग्यं हा अत्र पश्यन्तु समुद्रस्य गभीरता गभीरता इत्युक्ते hmm. यथा भवती उक्तवती तद् डिप्नेस् इत्युक्ते मनसः विषये अपि वयं वक्तुं शक्नुमः हा एम् टिवेसेल्स् मेक् खलु वदामि रामस्य कृते रामस्य गुण रामायणे वाल्मीकि उक्तवान् तत्र गाम्भीर्यम् इति रामस्य गुणस्य गाम्भीर्यं समुद्रस्य गाम्भीर्यम् इति उक्तवान् तदेव बहु सम्यक् श्वः एव रामनवमी इति अस्ति खलु श्वः रामनवमी इदानीं वयं सर्वे सुन्दरगान्तं पठन् पठितवती पठितवन्तः अस्ति अस्तु सम्यक् सम्यक् उत्तमं यावत् गभीरता वर्धेत् अस्माकं चिन्तनस्य गभीरता इति वदामः वा अस्माकम् अभ्यासस्य गभीरता यावत् वर्धेत् तावता प्रमाणेन तरङ्गाघाता तरङ्गाघाता इत्युक्ते चञ्चलना चञ्चलमनसा वा mm. तत्र स्थिरता न अस्थिरता mm. तत् न्यूनः भवति तस्य mm. न्यूनीकरणं भवति अधुना पश्यन्तु चञ्चलता इत्युक्ते mm. अधुना वयं सर्वे छात्राः तत्र आरम्भे mm. ओ भाषा, कठिना भाषा कथं वयं वक्तुं शक्नुमः इति मनसि विचाराः सन्ति तत् बहु कठिनं mm. परन्तु यावत् अस्माकं गभीरता इत्युक्ते यथा यथा वयम् अभ्यासस्य साय अभ्यासेन अभ्यासेन वा तत्र अस्माकं प्रयत्नेन यावत् शक्यते तावत् वयं यदा प्रयत्नं कुर्मः तावता प्रमाणेन चञ्चलता वातत्र तत्र मनसि धैर्यम् आगच्छति वा mm. तस्य स्थिरता इति जनयति एव तस्य तरङ्गाघाताः mm. तेषां न्यूनीकरणं भवति अस्तु योग्यम् अग्रिमे अपि पठामः धन्यवादः अग्रिमे भारतमहोदय पठति वा गभीरस्थल आं भगिनि गभीरस्थलप्राप्तिपर्यन्तपर्यन्तमपि प्रयत्नः न ता ता परित्या परित्या प्रित्या प्रित्या ये शान्तस्थितिं प्राप्तवन्तः ते सर्वे सहस्रशः प्रयत् प्रयलान् कृतवन्तः एव तेषां विशिष्ट यं नाम ते कदापि स्वप्रयत् प्रयलं न परित्यक्तवन्तः श्रमः hmm. अधिकः भवेत् इति यः प्रयलान् प्रयल् अप्रयत्नान् प्रयत्नान् परित्य सह कदापि अग्रे न गच्छेत। mm. स्थिरस्थितिम न प्राप्नुयात् च mm. पुत्र नौ नौकाविषये या नीतिः सा एव अन्विता भवति भवति जीवने अपि mm. यः प्रयत्नकरणात् भीतः पवेत स कदापि अग्रे न गच्छेत् प्रगतिं न प्राप्नुयात् सुस्थितिं च न लभेत् अतः प्रयत्नः कदापि न परित्यक्तव्यः पुत्रः विना प्रतिवचनं पुनरपि नौदण्डचाल चालने मग्नः अभवत् mm. ah, हा अस्तु अत्र पश्यन्तु तत्र मपि प्रयत्नः न परित्यक्तव्यः ah, मपि प्रयत्नः न प्रतक्तव्यः ये शान्तस्थितिं प्राप्नुवन्तः प्राप्तवन्तः ते सर्वे सहस्रशः प्रयत्नान् कृतवन्तः एव इत्युक्ते किं भारतमहोदय वदति वा गम्भी गभीरस्थल प्राप्ति प्राप् प्राप्ति प्रयत्नं प्रयत्नं करोतु ये शान्तस्थितिं प्राप्तवन्तः ये सहस्रशः प्रयत्नान् कृतवन्तः एव <coughs> वशन्तु <coughs> ते सहस्रशः प्रयत्नान् कृतवन्तः इत्युक्ते किं सुलभतया ते शान्तस्थितिं प्राप्नुवन्त वा नो सुलभतया न इत्युक्ते तेषां प्रयत्नानां फलं किं शान्तस्थिति सुलभतया समस्याः एव न सन्ति अतः ते शान्तस्थितिं प्राप्तवन्तः इति अस्ति वा जीवने वा तेषां नौकाचालने अपि समस्याः सन्ति समस्याः आसन् परन्तु ते प्रयत्नः न प्रयत्नान् न परित्यक्तवन्तः सहस्रशः प्रयत्नान् कृतवन्तः एव वा। अग्रिमं वाक्यं पश्यन्तु तेषां वैशिष्ट्यं नाम ते कदापि स्वप्रयत्नं न्यक्तवन्तः इत्युक्ते इत्युक्ते गभीरस्थलप्राप्तिं न प्राप्तवान् तेषां विशिष्टं कदापि स्वप्रयत्नं कदापि न परित्यक्तवन्तः इत्युक्ते गिव् अप् कण्टिन्यू ट्रैङ्ग् परित्यक्तवन्तः न परित्यक्तवन्तः स्वप्रयत्नम् इत्युक्ते ते प्रयत्नं कृतवन्तः प्रयत्नानां त्यजनं न कृतवन्तः Mm -hmm. श्रमः okay. अधिकः भवेत् इति यः प्रयत्नान् परित्यज्यत् सह कदापि अग्रे mm -hmm. okay. mm -hmm. हा न गच्छेत् पश्यन्तु किमस्ति अत्र यः श्रमस्य विषये चिन्ताम् करोति अधिकाः श्रमाः अतः अहम् कार्यम् न करोमि इति यः चिन्तयति सह जीवने अपि अग्रे न गच्छति <laughs> अग्रे न गच्छति यथा <स्थीरस्थी> न प्राप्नोति सः <laughs> अग्रिमेव पिता वदति नौका विषये या नीतिः इतुते या नीतिः इत्युक्ते वटेवर् इस् दूल् फार् नौका सा एव <laughs> अन्विता भवति जीवने अपि जीवने अपि एषः एव नियमः अस्ति खलो यः प्रयत्नकरणाद्भीतः भवेत् सः अग्रे न गच्छेत् यः mm. प्रयत्नं न करोति सः अग्रे न गच्छति तस्य प्रगतिम् प्र... सः प्रगतिम् no. न प्राप्नोति सुस्थितिम् no, yeah. mm. न लभ्यते अतः mm. प्रयत्नः कदापि न परित्यक्तव्यः mm. mm. तथैव अस्माकम् अभ्यासस्य विषये संस्कृताध्ययनस्य विषये सम्भाषणस्य कृते प्रयत्नाः ये आवश्यकाः तस्य विषये अपि एषः एव नियमः एषा एव नीति प्रयत्नः न परित्यक्तव्यः हा। एकवारं द्विवारं सर्वेषां तत्र पठनं तत् करणीयम् एव तत्र हा तत्र समस्याः तु परन्तु पुनः पुनः तस्य पुनरावर्तनं कृत्वा वयं स्थिरस्थितिं प्राप्तुम् शक्नुमः अस्तु पुत्रः विना प्रतिवचनं पुनरपि नौदण्डचालने मग्नः अभवत् तथैव yeah. mm. mm -hmm. वयं सर्वे लग्नाः भवेमः yeah. सर्वेषां yeah. मनसि संस्कृत अध्ययनस्य विषये करुचि भवेयुः इति प्रार्थनया वयं विरमामः अस्तु स्पष्टमस्ति वा सर्वेषां धन्यवादाः स्पष्टमस्ति वा अस्तु अधुना अग्रिमे बुधवासरे अहं बहिः भविष्यामि अतः अस्माकं वर्गः न भविष्यति अग्रिमे बुधवासरे अस्तु अस्तु वयं पक्षे मिलामः अग्रिमे पक्षे मिलिष्यामि एप्रिल् मासे तावत्पर्यन्तं यत्किमपि वयं पठितवन्तः अधीतवन्तः तस्य अभ्यासं कृपया सर्वे कुर्वन्तु पुनर्मिलामः सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु माकस्य दुःखभाग् भवेत् ओम् शान्तिशान्तिशान्तिः हरिः ओं तत्सद् श्रीगुरुभ्यो नमः हरिः ओम धन्यवादः धन्यवादाः धन्यवादाः पुनर्वादः शुभरात्रि धन्यवा धन्यवादः धन्यवादाः